परमात्मने नमः श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवत महापुराणे सप्तमस्कन्धे सप्तत्रिंशोऽध्यायः हिमालय उवाच श्रीयाम्भक्तिम्ब दर्वाम्ब येन ज्ञानम् सुखेन हि गायेतनुजस्यास्य मध्यमस्या विरागिणः देवी उवाच मार्गाश्रयो मे विख्यातः मोक्षप्राप्तो नगाधिपे कर्मयोगो ज्ञानयोगो भक्तियोग च सत्तम त्रयाणामप्ययं योग्यः कर्तुं शक्योति सर्वथा सुलभत्रान् मानसत्वात् कायचित्ताद्यपीडनात् गुणभेदान्नषाणाम् सा भक्ति त्रिविधा मता परपीडाम् समुद्दिश्य दम्भम् कृत्वा पुरस्तरम् माश्चर्यक्रोधयुक्तो यः तस्य भक्तिस्तुतामसि परपीडाधीरहितः स्वकल्याणार्थमेव च नित्यं सकामो हृदयं यशोर्थी भोगलो लुपः तत्सत्पालसम्भावाप्यै मुसे पामरहे, तस्य भक्ति सामख्या परमेशापण कर्म पाप सच्चा संक्षा लिद्वा कर्तव्यम् तु मया निजम् इति निश्चित बुद्धिस्तु भेदबुद्धिमुपाश्रितः करोति प्रीयते कर्म भक्तिसा नगतात्विकी परभक्ते प्रापिकेयम् भेदबुद्ध्यवलम्बना पूर्वप्रोक्ते भक्ति न पर मते पर परभक्तिम् तु प्रोच्यमानाम् निबोधमे, मे मद्गुणश्रवणम् नित्यम् मम नामानुकीर्तनम् कल्याणगुणरत्नाम् आकरायि स्थिरम् चेतसो वर्तनम् चैव सैव धारासमं सरय हेतुस्तु तत्र को भवेदपि सम्यप्य सा साति सयुज्य सा सलोक्यानां सा न ना चैषणा बस् सेवातोधिकम् किञ्चिन् नैव जानाति करिचित् सेव्यसेवकताभावात् तत्र मोक्षं न वञ्चति परानुरक्त्या माम् एव चिन्तयेद्यो ह्य तन्द्रितः साभेदेनैव माम् मद रूप जीवा चिंतन कुरुते तो यहात्मे प्रीति तथ परमे चैतन्य सामन स्व नेदा नमते यजते चैवापि अचाण्डालन्तमीश्वरीश्वर न कुत्रापि द्रोहबुद्धिं कुरुते भेदवर्जनात् मत्थानदर्शने श्रद्धाय मद्भक्तदर्शने तथा मच्छात्रा श्रवणे श्रद्धाय मन्त्रतन्त्रादिशुप्रभो मयि प्रेमा कुलमतिः रोमाञ्चे तदनुसराय प्रेमाश्रूषलपूर्णाच कण्ठगद्गदनिस्वनः अनन्येनैव भावेन पूजयेद्योनगाधिपे माम्मीश्वरिम् जगद्योनिम् सर्वकारणकारणम् व्रतानि मम दिव्यानि नित्यधे मैत्यकान्यपि नित्यम् यः कुरुते भक्त्या वित्तशाश्च विवर्जितः मदुत्सव रिदृक्षा च मदुत्सव कृतिस्तथा गायते यस्य नियतम् स्वभावादेव भूधर उच्चैर्गायञ्च मा ममैव खलु नृत्यति अहङ्कारा धीरयितो न यथा यत् क्रियते तत् तथा भवेत् न मे चिन्तास्ति तत्रापि देहरक्षणा देहसंरक्षणादिषु इति भक्ति तु यः प्रोक्ता यस्यां देव्यातिरिक्तन्तो न भाव्यते इत्थं दाता परभक्ति यस्य भोधर तत्त्वतः तदेव तस्य मद्रूपे विलयो भवितः भक्ते त्वया पराकाष्ठानं प्रकीर्तिदं वैराग्यस्य च श्रीमासा ज्ञाने तदुभयम् यतः भक्तो कृतायां यस्यापि प्रारब्ध वशतो नगरे न जायते मम ज्ञानम् मणिद्वीपं च गच्छति तत्र गत्वा खिलां भोगन् अनिच्छन्नपि च्छति तदन्ते मम चिद्रूप ज्ञानं सम्यग् भवेन्न तेन मुक्तः सदैव स्याद् ज्ञानान्मुक्तेन च अन्यथा यैव यस्य ज्ञानं स्यात् दृढत् प्रत्यगात्मनः मम सव्येत् मम तद्वित् परतनो तस्य प्राणा वृजन्ति न संस्कृता संस्थदाप्नोति ब्रह्मैव ब्रह्मवेदयः कण्ठ चामिग समम् ज्ञानातु अज्ञानातु तिरोहितम् ज्ञानादज्ञाननाशेन लब्धम्भेव हि लभ्यते विदिता विदिता धन्यन् न गोत्तम वपुर्मम यथा दृश्ये तथा स्मने यथा ज्वले तथा पितृलोके स यातपो यथा सच्छौ विविक्तौ तद्वदेव मम लोके भवे ज्ञानं वैतभावविभजितं यस्तु वैराग्यभेव ीनो म्रियेत चेत् ब्रह्मलोके वे नित्यम् यावत् कल्पम् ततः परम् शुचीनां श्रीयताम् श्रीमताम् गेहे भवेत्तस्य जनि पुनः करोति साधनम् पश्चात् ततो ज्ञानम् हि लायते अनेकजन्मभि राजन् ज्ञानम् च नैकजन्मना ततः सर्वप्रयत्नेन ज्ञानार्थं यत्नमाश्रयेत् नो चेन् महान् विनाश तत्रापि प्रथमे वर्णे वेदप्राप्तिश्च दुर्लभाय शमादिश् च सम्पत्ति योगसिद्धि तथैव च सर्वम् अत्र दुर्लभम् तथेन्द्रियाणां पटुता संस्कृत संस्कृतनोत्तथाय अनेकजन्म पुण्यस्तु मोक्षेच्छा जायते न ततः साधने सफलेऽप्येवं जायमाने प्रियो नरहे ज्ञानार्थं नैव यतते तस्य जन्म निदेशकम् तस्माद्राजन् यथा शक्त्या ज्ञानार्थं यत्माश्रे परेष्वमेधस्य परं प्राप्नोति निश्चितम् कुटम्बिव पैस निगूढम् भूते भूते च वसति विज्ञानम् सततं मन्थैतव्यम् मनसा मन्था न भूतेन ज्ञानं लब्ध कुधाथश्च इति वेदान्तलिं निहे सर्वम् उक्तम् समासेन किं भूय श्रोतुमिच्छति इति श्रीमद्देवी भागवते मा पुराणेष्टादशसहस्रहितायाम् सप्तमस्कन्धे देवी गीतायाम् भक्तिमयीम मा वर्णनम् नाम सप्तत्रिंशोऽध्यायः श्रीजगदम्बिकायार्पणमस्तु